बृहद्रथं च सरुषिः यथावत्प्रत्यनन्दत उपविष्टश्च ते नाधा अनुज्ञातो महात्मना तमपृच्छत्तदा विप्रह किमागमनमित्यथा पौरेरनुगतस्यैव पत्नीभ्यां सहितस्य च स उवाच मुनिं राज भगवन्नास्ति मे सुतः अपुत्रस्य वृथा जन्म इत्याहुर्मुनिसत्तम तादृशस्य हि राज्येन वृद्धत्वे किम् प्रयोजनम् सोऽहम् तपश्चरिष्यामि पत्नीभ्याम् सहितो वने नाप्रजस्य मुने कीर्तिः स्वर्गश्चैवाक्षयो भवेत् एवमुक्तस्य राज्ञा तु मुनेः कारुण्यमागतम् तमब्रवीत्सत्यधृतिः सत्यवा गृषि सत्तमः परितुष्टोऽस्मि राजेन्द्र वरं वरय सुव्रत